परं श्रेयःपाण्डवेयामयोक्तं न मेतच्च श्रुतवानाम्बिकेयः यथातुरस्येव हि पथ्यमन्नं जातशत्रो त्रिश्रोत्रियस्यैव गृहे प्रदुष्टा ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः ध्रुवं विनाशो नृपगौरवाणां न वै श्रेयो धृतराष्ट्रः परैति यथा च पर्णे पुष्करस्यावसिक्तं जलं न तिष्ठेत् तथास्मिन् ततः क्रुद्धो धृतराष्ट्रो ब्रवीन्मां यस्मिन् श्रद्धा भारत तत्र याहि नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा सोऽहं त्यक्तो धृतराष्ट्रेण राज्ञा प्रशासितुं त्वामुपयातो नरेन्द्रा तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत् प्रवक्ष्यामि भूयः क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन् कालमुपासते यः संवर्धयन् स्तोकमिवाग्निमात्मवान् स एव यस्याविभक्तं वसुराजन्सहायैस्तस्य दुःखेऽप्यंशभाजः सहायाः सहायानामेष सङ्ग्रहणेऽध्युपायः सहाया, सहाया पृथिवीप्राप्तिमाहुः सत्यं श्रेष्ठं पाण्डवविप्रलापम् तुल्यं चान्नं सह भोज्यं सहायैः आत्मा चैषामग्रतो न स्म पूज्या एवं वृत्तिर्वर्धते भूमिपालः युधिष्ठिर उवाच एवं करिष्यामि यथा ब्रवीषि परां बुद्धिमुपगम्य प्रमत्तः यच्चाप्यन्यद्देशकालोपपन्नम् तत्करिष्यामि तदीवाच्यम तत्क्याभार वनपर्वि अर्यपर्वि विदुर निर्वासे पंचम